श्रीमद्भागवतमहापुराणं दशं स्कन्ध तृतीयोऽध्यायः श्रीभगवानुवाच तमेव पूर्वसर्गे भूपृश्ने स्वायं भुवो सति तदायं सुतपा नाम युवां वै ब्रह्मणादिष्टो प्रजासर्गे यदा ततः तपः मघर्मकाल वर्षवातातपहीं मघर्मकालगुणानो सहमानौ श्वासरोधविनिर्धूतमनोमलौ शिर्णपर्णानिराहारा उपशान्तेन चेतसा मत्तकामानभिप्सन्तौ मदाराध मेहतुः देवं वां तव्यतो तीव्रं तप परमदुष्करम् दिव्यवर्षसहस्राणि द्वादशे यो मदात्मनो तदा वां परितुष्टोऽहम् अमुना वपुषा नघे तपसा श्रद्धया नित्यं भक्त्या च हृदिभावितः प्राजुरासंवरद्राडयुवयो कामधिसया प्रियताम्बरी इत्युक्ते मा दिशो अजृष्टग्राम्यविषया वनपत्यौ च दम्पती नवब्राथे पुवर्गं मे मोहितो मम मायया गते मयि वां लब्ध्वा वरं वश्चिसंशुतं ग्राम्यान् भोगान् भुञ्जातां युवां प्राप्त मनोरथौ अदृष्टवान्यतमं लोके शीलौ अहं श्रुतो वाम भुवं प्रश्निगर्भ इति श्रुतः तयोर्वां पुनरेवाहम् आदित्यामाश कस्यपात उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः द्वितीयेऽस्मिन् भवेऽहं ते वै तेनैव साथवाम् जातो भूयस्तयोरेव सत्यं मे व्याहृतं एतद्वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे नान्यथामद्भवं ज्ञानं मर्त्यलिङ्गेन जायते युवां मां पुत्रभावेन ब्रह्मभावेन चाशके चिन्तयन्तौ कृतस्नेहौ यासेथे मद्गतिं परां शेषो उवाच इत्युक्त्वासीद्धरिस्तृष्णिं भगवानात्ममायया विद्रोऽ सम्पश्यतो सद्यो बभूव प्राकृतशिशु ततश्च सौरि भगवत्प्रचोदितः सुतं समादाय ससूतिका गृहात् यदा बहिर्गन्तुमि ये सन्तर्हजा या योगमायाजनिनन्दजा यां तयासि तत्प्रत्ययसर्ववृत्तिसु द्वास्तेषु पौरेष्वपि शायिते सथ दारस्तु सर्वापि हि तादुरत्यया बृहत्कपाटाय शकीलशृङ्खलैः ता कृष्णवाहे वसुदेव आगते त्रयं व्यवृन्दन्त यथा तमोरवेः न वर्षपर्जन्य उपांसुवर्जितः शेषोन्वगाद्वारि निवारयन्फणैः भगो निवर्षत्यसकृञ्जमानुजा गम्भीरतोयौ गजवोर्मिफेरिला भ्यानकावर्तसुता कुलानदी मार्गं ददौ सिन्धुरिव श्रियां श्रियपते नन्दव्रजं सौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलम्भ्य निद्रयां सुतं यशोदासयने निधायत देवक्या शैलेनस्य वसुदेवोत्थधारिकाम् प्रतिमुद्य प्रदो लोहम् आसी पूर्वपदावृतः यशोदानन्दपत्नी च जातम् परमबुध्यत न तल्लिङ्गम् परिश्रान्ता निद्रयापगतस्मृतिः इति श्रीमद्भागवते महापुराणे पारंशां शयितायां दशमस्कन्धे पर्वार्धे कृष्णजन्मनि तृतोऽध्यायः